यतमानावनं राजन् गहनं प्रतिपेदिरे ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः पुनरुचुर्महावीर्यं भीमसेनमिदं वचः इतः कष्टतरम् किं नु यद्वयं गहने वने विजानीमो गन्तुं चैव न शक्नुमः तञ्च पापं न जानीमो यदि दग्धपुरोचनः कथं तु विप्रमुच्येम विप्रमुच्येमभयादस्मादलक्षिताः पुनरस्मानुपादाय तथैव व्रजभारत त्वं हि नो बलवानेको यथा सततगस्तथा इत्युक्तो धर्मराजेन भीमसेनो महाबलह आदाय कुन्तीं जगामाशुमहाबलः इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पाण्डवनप्रवेशे एकोनपञ्चाशदधिकशततमोऽध्याय